श्रीहरे नमः अत एकोनविंशोऽध्यायः मैत्रेय उवाच अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः प्रहस्त्यप्रेमगर्भेण तधभाङ्गेन सो गृहीत् ततस्तपत्नम् उकतश्चरन्तमगुतो भयं जगानोत्पत्य गतया हनावसुरमशजः सहता तेन गतया विकता भगवरात् विकूर्णिता पतत्रे जतद्भुतमिवाभवन् सतता लब्धतीर्थ ते निरायुधं मानयन् संवृते धर्मम् विष्वक्सेनं प्रकोपयन् गतायामपविद्धायां हा हाकारे विनिर्गते मानयामास तद्धर्मं सुनाभंशास्मरत् विभुः तं व्यग्रचक्रं स्वभाषतमुख्येन विषज्यमानं चित्रावचोधत् वितां तत्रास्मासं तत्रास्मासन् स्वस्ति ते मुं जहीति सतं निशां य व्यवस्थितं पद्मपलासलोचनं विलोक्यसामर्ष नृषास्वधन्तश्च धम् आधः सन् करला दंष्ट्रश्चक्षुर्भ्याम् सञ्चक्षाणो दहन्निव अभिप्लुत्य स्वगदया कथोऽसीत्याहनत् भगवान् यज्ञसूकरः लीलयामिषदः प्राहरत्वातरं सहम् आगचायुधमाधत्स्व घटस्व त्वं जि जिगीषसि इत्युक्तसतधता भूयस् धाटयन् व्यनधद्भृशं तां जग्राहलीलया प्राप्तां गरुत्मानिवन्नगीं स्वपौरुषे प्रदिहते हतमानो महासुरः नैश्चद्गतां दीयमानं हरिणाविगतप्रभः जग्राहत्रिसिकं शूलं ज्वलज्वलनलोलुपं यज्ञायत्रतरूपाय विप्रायाभिचरन् यथा तथोजसा दैत्यमहाभटार्पितं सखा सदन्तक उदीर्णधीतिधि चक्रेण चिश्चेतनि सातनेमिना हरिर्यता विभूतिमत् प्रवृद्धरोषः स कठोरमुष्टिना नदन्ब्रहृद्यान्तरदीयतासुरः ना तेनेत्तमागतक्षत्तर्भगवानादिसूकरः नाकम्बतमना क्वापि स्रजा हत इव द्विभः अतो रुदा सृजन्मायां योगमायेश्वरे हरो यां विलोक्य प्रजास्त्रस्था मेनिरेस्योपसंयमम् प्रभभोर्वायवश्चण्डास्तमः सवमैरयन् दिव्योनिपे क्षेपणैप्रहिता इव द्यौर्नष्टभगणाप्रौघें सवित्युस्तनयन्तुभिहें वर्षद्भिपूय केशाश्रोक् विण्मूत्रास्तीदिश्चाशकृ गिरयः प्रद्यतृशन्त नानायुतमुचोनघ दिक्वाससो यातु धान्यम् सुलिन्योमुक्तमूर्धजाः बहुभिर्यक्ष रक्षोभि पत्यस्मृतकुञ्जरैः आतदायिभिरुत्सृष्टा हिंस्रावाचोतिवैस् सा प्रातुष्कृतानां मायानामासुरीणां विनाशयत् सुदर्शनास्त्रं भगवान् प्राङ्ुङ्क्तदयितं त्रिपात् तथोतिते समभवत् सकसा हृदि स्मरन्त्या भर्तुरादेशं स्तनाश्चाशृक्प्रशुश्रवे विनष्टासु स्वमायासु भूयश्चा व्रजकेशवम् रुषो बगूहमानो मुं तं मुष्टिभिर्विनिघ्नन्तं वज्रसारै अधोक्षजः करेण कर्णमुलेहन् यथा द्वाष्ट्रम् मरुत्पदिहे स आहतो विश्वजिता उतस्तलोचनः विशीर्णभाग्वं कृशिरोरुहोऽपत् यथा न हिधौ सयानं तम् अकुण्ठवर्चसं कराळदंष्ट्रं परिदष्टधश्चधम् अजाधयो वीक्षस संसुरागता अहो इमां को नु लभेत संस्थितं यं योगिनो लिंगात ध्यायन्ति लिङ्गात सतो मोक्षया तस्यैक्ष दैत्यऋषभः मुखं प्रभस्यं स्तनुमुत्ससर्जः एतौ तौ पार्षदावस्य सभात्या तावसग्धतिं पुनः कदि्वयैस्तानं प्रभत्स्येतः जन्मभिः देवावुचू नमो नमस्ते किल स्थितौ गृहीतामलसत्त्वमूर्तये दिष्टाहतोऽयं जगदामरुद्धृता त्वत्पादभक्त्या व्यमीसनिर्वृताः मैत्रेय उवाच एवं हिरण्या क्षम्मकस्य विक्रमं ससाधयित्वा जगामलोकं स्वमकण्टितोस्त्वम् समीडितः पुष्टिकरविष्टरादिभिर्मया यथानुक्तमभाधिदेहरे कृतावतारस्य सुमित्रचेष्टितं यथा हिरण्याक्षमुदारविक्रमो महामृधे क्रीटनभत् निराकृतः इति कौशारवाक्या ताम् आश्रित्य भगवद्गतां परं लेभे महाभागवतो द्विजा अन्येषाम् पुण्यश्लोकानाम् उद्धामयस सांसदाम् उपश्रुत्य भवेन्मोथ श्रीवत्साङ्कस्य किम् पुनः यो गजेन्द्रम् जशग्रस्तम् ध्यायन्तम् चरणाम्बुजम् तं सुकाराध्यं तं सुकाराध्यं रुजु बिरनन्द्यशरणैर्नृभिः दूराद्यमसाधुभिर्यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः शृणोति गायत्यनुमोदते विमुच्यते ब्रह्मवधाध विध्वजाः एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषा प्राणेन्द्रियाणां युधिसौर्यवर्धनं नारायणोऽन्ते गतिरङ्कशृण्वता इति श्रीमद्भगवते महापुराणे तृतीयस्कन्ते हिरण्याक्षवधो नाम सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द